सप्तति तमोऽध्यायः ततो मृगसहस्राणि हत्वा सबलवाहनः राजा मृग प्रसङ्गेन वनमद्यद्विवेशः एक एवोत्तम बलः क्षुत्पिपासाश्रमान्वितः सवनस्यान्तमासाद्य महच्छून्यम् समासदत् तच्चाप्यतीप्यनुपतिरुत्तमाश्रम संयुतम् मनः प्रह्लाद जननम् दृष्टिकान्तमतीव विपुलम् मधुरारावैर्नादितम् विहगैस्तथा पुंस्को किल निनादैश्च झिल्लीखगणनादितम् प्रवृद्ध विटपैर्वृक्षैः सुखच्छायैः समावृतम् षट्पदा घूर्णित तलम् लक्ष्म्या परमयायुतम् नापुष्पः पादपः कश्चिन्ना फलो ना मनोरमं महेश्वासो विवेश वनमुत्तमम् मारुता कलितास्तत्र द्रुमाः कुसुमशाखिनः पुष्पवृष्टिम् विचित्रान् तु व्यसृजंस्ते पुनः पुनः दिवः स्पृशोऽथ सङ्घृष्टाः पक्षिभिर्मधुरस्वनैः विरेजुः पादपास्तत्र विचित्र कुसुमाम्बराः तत्र प्रवालेषु पुष्पभारावनामिषु रुवन्ति रावान् मधुरान् षट्पदा मधु तत्र प्रदेशांश्च बहून् कुसुमोत्कर मण्डितान् लता सम्पश्यन् सुमहा तेजा बभूव मुदितस्तदा परस्पराश्लिष्टशाखैः पादपैः कुसुमान्वितैः अशोभत वनम् तत्तु महेन्द्र ध्वज सन्निभैः सिद्धचारण सङ्घैश्च गन्धर्वाप्सरसाम् गणैः सेवितम् एवम् गुणसमायुक्तं समायुक्तम् ददर्श नदीकच्छोद्भवं नृपः नदी कच्छोद्भवम् कान्तमुच्छ्रित ध्वज सन्निभम् प्रेक्षमाणो वनम् तत्तु सुप्रहृष्ट विहङ्गमम् आश्रम प्रवरम् रम्यम् ददर्श च नाना वृक्ष समाकीर्णम् प्रत्यपूजयत् यतिभिर्वालखिल्यैश्च व्रुतम् मुनिगणान्वितम् महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च मालिनीमभितो राजन् नदीम् पुण्याम् सुखोदकाम् नैकपक्षिगणाकीर्णाम् तपोवन मनोरमाम् तत्र व्यालम् मृगान् सौम्यान् पश्यन् प्रीतिमवापसः तञ्चा प्रतिरधः श्रीमानाश्रमम् प्रत्यपद्यत देवलोक प्रतीकाशम् सर्वतः सुमनोहरम् नदीञ्चाश्रम संश्लिष्टाम् पुण्यतोयाम् ददर्शसः तत्र जननीमिवधिष्ठिताम् स चक्रवाक पुलिनाम् पुष्पफेन प्रवाहिनीम् स किन्नर गणावासाम् वानरक्ष निषेविताम् पुण्यस्वाध्याय सङ्घृष्टाम् पुलिनैरुप शोभिताम्